मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायम् तर्टि नैन् बल्लालेश्वरवर्णनम् श्रीगणेशाय नमः विभाण्डक उवाच वल्लालस्य बदिम् नाथपदलेभे सकां परां गाणपत्यो महाभागो दुःखितो मुनिसत्तमा जाजलिरुवाच बल्लालो गणनाथं सस्मारवनसंस्थितः रक्तस्रावयुतश्चैको बद्धपित्रा दुरात्मना विघ्नायिर्नाम देवेश ते भूद्गजानन भक्तविघ्नकरो मे किम् विपरीतोऽसि निश्चितम् मद्भक्तिखण्डनार्थं मां यदाच्छलयसे परं मया पुरा पदेनाथ देहोऽयं ते समर्पितः पततु मे शरीरं तु न मुञ्चामि कदाचन त्वाम् गणेशदया सिन्धो भक्तोऽहं भावसंयुधः यदि मे सुदृढाभक्तिस्तवपादे निरन्तरं तदा कुष्ठयुधश्चान्धः पिता भवदु कुब्जकः मूको बधिरतायुक्तो भवतु त्वत्प्रसादः अहं बन्धनहीनश्च विघ्नेशते नमो नमः भक्तस्य बल्लालस्य मुखान्मुने वचनं निःसृतं यावत् स तावत् तादृशोऽभवद ततो गणेश्वरप्रीतो ब्राह्मणस्य स्वरूपदृकतमाययौ महाभक्तं भक्तवचनयन्त्रितः बद्धं बल्लालभक्तं स ददर्श ब्राह्मणोत्तमः तत्क्षणाच्चिदिलान्येव बन्धनानि बभूविरे अङ्गानि क्षदहीनानि बभूवुर्मुनिसत्तम तदस्सहर्षितो मेने गणेशं द्विजरूपिणम् उद्धार तं स पुनः प्रणम्य विघ्नेशम् तुष्टाव करसम्पुडः बल्लाल उवाच गणेशाय धाम्ने परेशाय तुभ्यं सदानन्दरूपाय सर्वाधिगाय अपारस्वरूपाय देवाधिदेव नमस्ते प्रभो भक्तसंरक्षकाय हेरम्बाय नमस्तुभ्यं विघ्नेशाय परात्मने ब्रह्मेशाय महायोगदात्रे शान्तिमयायते स्वानन्दवासिने तुभ्यं स्वानन्दे खेलकायते योगेशाय महोदाररूपधारिनमो नमः सदा सन्मयसायाय mm. व्यक्तशीर्ष्णे नमो नमः योगरूपेण सर्वत्र संस्थिताय नमो नमः सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च सिद्धिबुद्धिपदे तुभ्यं नमस्ते गजवक्त्रिणे लम्बोदराय देवाय चतुर्बाहुधराय ते मूषकध्वजिने तुभ्यं पाशाङ्कुशप्रधारिणे द्विजरूपधरायैव भक्तवत्सलभावतः रक्षितुं भक्तवाक्यं तु समागतायते नमः त्वं माता त्वं पिता नाथस्त्वं द्रव्यं विद्यादिगम्यत्वं सर्वं ते वै नमो नमः देहेन वाचा मनसा कृदान्मे सां सर्गिकान् जागृतिस्वप्नजादान् सकलापराधान। सुप्तितोयान् सकलापराधान् क्षमःम्भदयानिधेत्वम् एवमुक्त्वा ननर्तास्सौ बल्लालो भक्तियन्द्रितः साश्रुनेत्रः सरोमाञ्जो ब्राह्मणाग्रे महामुने तमुवाच गणाधीशस्त्यक्त्वा ब्राह्मणरूपकं गजाननस्वरूपेण संयुक्तो भक्तमुत्तमम् श्रीगणेश उवाच वरान् ब्रूहि महायोगिन्यांस्थे चित्तगदान् परान् दास्यामि भक्तितुष्टोऽहं नियमे न महामदे त्वया कृदमिदं स्तोत्रम् सर्वसिद्धिप्रदायकं भविष्यदि नरयैव पठदे शृण्वदे सदा यं यम यमिच्छति तं तु दास्याम्यनेन संस्तुतः अन्ते वै भाविस्तोत्रं विशेषदः भल्लाल उवाच तव भक्रिं स्थिरां देहि सङ्गं मे भाविदात्मनां त्वयि विमुख भावानामनादरं गजानन न्यम किंचिवर याजे दा सोहम ते विनाय गुष्व विशेषद तथे तमधोवाज गणेशो भक्वत्सलनाम पूर्वकनाम नाम मे परम अत्रह सदा सर्वान्लाशो गणेश्वरः स्थास्यामि भक्तिसंयुक्ता पालयिष्यामि योगिनः एवमुक्त्वान्तर्दधेसौ गणेशो ब्रह्मनायकः तत्र देवालयं चित्रं बभूव तत्क्षणान्मुने बल्लालेशयुदं रम्यं दृष्ट्वा बल्लालवैश्यकः विस्मितस्थं प्रणम्यादौ पूजार्थं सन्दधे मनः तत्र पूजोपचाराश्च पदिता वै समन्तदः बल्लालस्य ततस्तं तैः पूजयामास वैश्यजः नियमम् नित्यजम् पूर्णं कृत्वा ध्यानपरोभवद तद उद्धाय हर्षेण न नाम बभूव परमाद्भुदः स्वपरभ्रान्तिही नः स बल्लाजो गणपप्रियः तदो मादासमायादा लोकैष्टं स विस्मिदा निर्वरणं दृष्ट्वा मुक्तं देवालये स्थितं वृत्तान्तं तन्मुखाच्छ्रुत्वा स तां पुनरुवाचः गणेशद्वेषिणं तादं न पश्यामि कदाचन नानाजन्मसु मे मादापिता नानाविधो भवद तेषु केषां धराम्येवाभिमानं तारणात्मकम् गच्छ त्वं स्वगृहं नाहं पुत्रो दुष्टस्य निश्चितम् येन देवालयम् भग्नं सदेवं भक्तिकण्डनी श्रुत्वा सा शोकसंयुक्ता स्वस्थानं तद आययौ बल्लालस्तत्र विघ्नेश्यमभजद् हर्षसंयुधः तत्रक सामयाद ज्योतिप विमानकं तेन बल्लाल वैश्यस्तु जगाम गणनायकं बिभा उवाच कर्मण योकाशुपरायण शुभा शुभा शुभा, शुभा शुभे प्रकु कर्मणा प्रेरिता पुनः तत्र बल्लाल स्वपर बल्लालस्वपरभ्रमवर्जितः कथं कल्याणवैश्यं तं द्वेषिणम् प्रददर्शः जाजलिरुवाच योगिषु गणनाथस्य भक्ता श्रेष्ठा बल्लाल बुधैः तेषु बल्लालवैश्योऽयं भक्तराजोभवत्परः गणेश भजने सकता पूज्य मनिया निरंतर भक्तस्तरीतास्ते त्याज्या वैरी सनका अदो बल्लाल वैश्यस्तु पित पूज्य मंच स गणेशाथ गणेश निंदक समयदिभाक उवाच कुले महायोगिन महायोगिन् गणपत्यो भवेत्कदा तस्य वंशभुवकोडि कुलस्योद्धारकारकः अयं कल्याणवैश्यस्य पुत्रस्वानन्दभो भवद तदपि तस्य जनको मातभूमौ स्थितौ कथम् अन्धे तयोर्गतिश्चात्र कीदृशी सं बभूवः श्रुत्वा महाचित्रामाश्चर्यं मे हृदि स्थितम् जाजलिरुवाच गाणपत्यकुले जादकुलोद्धारार्थमादराद यत्नं करोति चेद्विप्र तदा तस्य गतिर्भवेद अथवा गणनाथं स महामुने उद्धारं कुलजानां वै भवेत् सद्यो न संशयः भल्लालशापरक्षार्थं गणेशस्तस्य भावकः अन्यजन्मनि चोद्धारं चकारस तयोः पुनः इदं बल्लालमाहात्म्यं कथितं ते समासदः सर्वसिद्धिप्रदं पूर्णम् शृण्वदे पठदे भवेद न बलेसदृशो येषां बल्लास्ते प्रकीर्तिदाः तेषां स्वामी गणाधीशो बल्लालेश इति स्मृतः त्वमपि व्रतमुख्यं तत् कुरुष्वभक्तिसंयुधः चादुर्मास्य भवं चित्रं बल्लालेशपरायणः तेन योगयुधः प्रसादेन भविष्यसि बल्लाले शस्य विप्रेष नात्रकार्या विचारणा बल्लालेश्वरमाहात्म्यं यशृणो दिनरोत्तमः पठति स महाभोगान् भुक्त्वा ब्रह्ममयो भवेद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि महापुराणे अष्ट खंडे धूम्रवर्णचि चादुर्मात्म्यलेवर्णनमको नाशोध्याय ओम